हे चन्द्रचूड मदनान्त शूलपाणि स्थानो गिरिश गिरिजेश महेश शम्भो भूतेश बीत भयसोद जगदीश रक्ष हे पार्वती हृदयवल्लभ चन्द्रमोले भूतान् प प्रमथनाथ गिरीश जाप हे वामदेव बवरुत्र पिनाक पा संसार दुःख गहना जगदीश रक्ष नीलकंठ नीलकण्ठ वृषभध्वज पंचवक्र लोकेश शेषवलय प्रमथेश शर्व हे दुर्जटे पशुपते जापते मा संसार दुःख गहना जगदीश रक्षे विश्वनाथ शिव शङ्कर दे संसार दुःख गहना जगदीश रक्ष भारानसि पुरपते मणि कर्णकेश वीरेश दक्ष मखकाल विभो गणेश सर्वज्ञ सर्वहृदये के निवासनाथ संसार दुःख गहना जगदीश रक्ष श्रीमन्महेशर कृपामय हे हेव्योमकेश हे व्योम केश क्षितिकण्ठगणादिनाथ भस्मा गरागृणकपाल संसार दुःख गहना जगदीश रक्ष कैलास शेलविनिवास वृषाकपे मृत्युञ्जय त्रिनयन त्रिजघन्निवास नारायण प्रिय शक्तिना संसार दुःख गहन जगदीश रक्ष विश्वेश विश्वभवनाश्रित विश्वरूप विश्वात्मकत्रिभवने के गुणादि विष हे विश्ववन्द करुणा सारदुःख गहना जगदीश रक्ष गौरीविलासभुवनाय महेश्वराय पञ्चननाय शरणागत कल्पकाय शर्वाय सर्वजगतामधिपाय तस्मै धारित्र दुःखदहनाय नमः शिवाय